मुद्गलपुराणं खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं सिक्स् अहङ्कारासुरज्ञानोपदेशं श्रीगणेशाय नमः श्रीशिव उवाच शुक्रं प्रणम्यनीतिज्ञं भयसङ्कुलितो सुरः अहङ्कारो जगदेदं वचनं स्वहितार्थकम् अहङ्कार उवाच स्वामिन्मे वरदानं यन्निष्फलं प्रबभूव तद अमोकास्त्रमयं किं त्वं वदसंशयकं नुद धूम्रवर्णसमायादो देवपक्षप्रवर्धनः मायामह्यः कथं सोऽपि निष्फलं चकारः शुक्र उवाच अकं त्वं मूर्खभावेन मन्यसे धूम्रवर्णकं मायामयं विशेषेण न जानासि गजाननं मायायुक्तविहीनत्वं तत्र नैव प्रवर्तते योगाकारं गणेशानं वदन्ते वेदवादिनः हनिष्यति समाक्रुद्धस्त्वामयम् धूम्रवर्णकः अधस्तं त्वं गणेशानां शरणं याहि दैत्यप धूम्रेणावृतमेवं यद्दृश्यते न जनयुर्यथा तथा वस्तु गणेशानां न जानन्ति शिवादयः वर्णवेदस्वरूपाश्च धूम्रा जादा इवा अज्ञानत्वात्ततश्चायमव्यक्तो धूम्रवर्णकः सहजं ब्रह्म यत् प्रोक्तं स्वाधीनं ब्रह्मसुपरं तस्य किं वरदानस्योल्लङ्घनं दुर्घटं भवेद् स्वेच्छया वरदानं वै निष्फलं भवेद् तदेव धूम्रवर्णोऽयं सहजो नेदिवाचकः अविनाशिपदं यच्च गजाख्यं ब्रह्म कथ्यदे तदेव मस्तकं तस्य गणेशस्य महात्मनः नाशरूपं जगत्सर्वं देहस्तस्य न संशयः धूम्रवर्णस्तयोर्योगे देहधारी बभूवः पञ्च चित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता चित्तभ्रान्तिकरी सिद्धिर्वामाङ्गे राजदे तयो स्वामी गणेशानो मायाभ्यां क्रीडति प्रभुः तं गच्छ चरणं दाद तदा सौख्यमवाप्स्यसि स्वसंवेद्येन योगेन दर्शनं तस्य जायते योगिनां गणनाथस्य तेन स्वानन्दपालकः न यशो महाराज भविष्यति कदाचन सुरासुरमयो धुण्डिशरणं तस्य गच्छतु सुराः स्वर्गेषु ते नैव स्थापिता मानवाभुवि असुराविवरेष्वेव त्रिविधं धर्मः संयुधं स्वस्वधर्मं परित्यज्य लोभयुक्ता सुरासुराः भवन्ति चेत्तदा इयं तु तेषां शास्ता भवत्यहो देवैर्दैत्याजिदा सर्वे पादालं गत्यमानद तदा त्वं स भवद त्वमपि धर्मलोपेन वर्णाश्रमपराङ्मुखः देवनाशार्थमत्यन्द मोद्युक्तोऽसि कलोत्तम अतस्त्वां हन्तुमेवं समायादो गजाननः स्वधर्मस्तस्य तेनाश्यं न करिष्यदि त्रिविधं त्रिविधे भावे संस्थितं धर्मसंयुतं तदायं बुद्धिनाथश्च बुद्धौ नित्यं स्थितो भवेद् अतस्तस्य गणेशस्य शरणं दैत्यप ब्रह्मकारं च सर्वत्र सुरासुरप्रवर्तकम् श्रीशिव उवाच काव्यस्य वचनम् श्रुत्वा हर्षयुक्तोहमादराद प्रणम्य तं पुनः प्राह संशयस्यापनुत्तये अहमुवाच शरणं धूम्रवर्णस्य गमिष्यामि त्वदाज्ञया सुरासुरमयस्यैव तथापि नुदसंशयम् सिद्धिबुद्धिसममाया विद्यते नैव निश्चितं प्रकृत्या संयुधो नित्यं गणेश न प्रकेलति सर्वपूज्यश्च सर्वादौ सर्वा सम्मतो ब्रह्मनायकः श्रीशब्देन समयुक्तं कथं गदा। ददात् सिद्धिं बुद्धिं परित्यज्य श्रियं चौङ्गारकं तथा विकल्पेन समागृह्य गणनायकः अन्ये सर्वे तथा विप्रकृत्या श्रीस्वरूपया युक्ता भवन्ति शास्त्रेषु किमिदं कौतुकम् वद अत श्रीर्यत्समदेवी विद्यते नैव निश्चितम् भाधि सर्वत्र वेदेषु तथोङ्कारात्मिकापरा शुक्र उवाच गकारसिद्धिरूपश्च नकारो बुद्धिवाचकः तयोः स्वामी गणेशानो योगाकारः प्रदृश्यते यथा मायायुधं ब्रह्म मायाया भिन्नकं न च सदा ब्रह्म ब्रह्म माया, माया न संशयः तथा सिद्धिश्च बुद्धिश्च गणेशो दैत्यनायक एकरूपो न सन्देहो योगस्तेनायमुच्यते सिद्धिर्बुद्धिर्गणेशानोज्ञानिनाम् त्रिविधम् परम् भाधियोगमयं चापि विचारय विचक्षण अतः सिद्धेश्च बुद्धेश्चोपासनं नात्र विद्यते भिन्नम् गणपदेस्तस्मात् त्रिविधम् नास्ति निश्चितम् गणेशपूजनेनैव त्रिविधम् पूजितम् भवेत् प्रकृतिः पुरुषाकारस्तत्र नैव प्रदृश्यते वामाङ्गम् प्रकृत्याकारम् दक्षिणाङ्गम् च पुंमयम् सिद्धिम् बुद्धिम् विजानीहि योगे तोर्योगे गणेशर वामगे चकृति संस्थित गणेशो भेद दुप्रकृति परकर्तिकूपरा मया सिबुमयी परा भिन्नभोगान सृष्टि कर्म मनो दधे सिद्धे रङ्गात् समुत्पन्ना श्री सर्वशोभयायुधा बुद्धेरङ्गात् तदौङ्कारप्रकृतिप्रभूवः ताभ्यां तपः कृतं घोरं स्वस्वज्ञानप्रसिद्धये यस्मै कस्मै नमो नित्यं मन्त्रं जप्त्वा स्वमूलकम् ततस्तयोर्हृदिस्थं यद् ब्रह्म मायाप्रचालकं प्रसन्नं जातमत्यन्तं स्वरूपं स्वमदर्शयद तद एकाक्षरं मन्त्रं गणेशस्य महात्मनः दृष्ट्वा ताभ्यां प्रधिष्ठं स्वं तेजोरूपं सुखप्रदम् ततस्तनैव मन्त्रेण तोषयामासदुःपरम् गणेशं <Sanye> दे महाभागेख्यादि माये दिव्यवर्ष दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः समायाद वरान्दातुं समायादसिद्धिबुद्धिसमन्वितः नरकुञ्जररूपं तत् दृष्ट्वा विस्मितमानसे माये बभूवतुस्तत्र विचारं चक्रदुर्हृदि गणेशकृपया सद्यो ज्ञातं जादम् महाद्भुदम् तापः सोऽग्रप्रभावेण ज्ञातं ताभ्याम् रहस्यकम् सिद्धिबुद्धियुतं तं ते वीक्ष्य चोद्धाय सत्वरं प्रणे मधुर्गणेशानं पूज्य स्तोत्रम् प्रचक्रदुः नमस्ते गणनाधाय सर्वसिद्धिप्रदायकसिद्धिबुद्धियुधायैव गणानां पदये नमः स्वानन्दपदये तुभ्यं करतॄणां कर्तृरूपिणे अनाधाय सनाधानां नमो नाधाय नमः परेशाय परेषां च पालकाय परात्मने आत्मनाम आत्मनामृतायैव विघ्नेशाय नमो नमः लम्बोदराय देवाय देवदेवेशरूपिणी देवेभ्यो देवे देवतां दात्रे गजाननाय ते नमः ज्येष्ठराजाय सर्वेषामादिपूज्याय ढुण्ठये अनामनाय नित्याय सर्वेशाय नमो नमः ब्रह्मभ्यो ब्रह्मदात्रे ते ब्रह्मणे ब्रह्मरूपिणे ब्रह्मणस्पदये तुभ्यं पूर्णयोगाय ते नमः योगशान्तिमयायैव चिन्तामणिस्वरूपिणे अनन्दायादिरूपाय चान्दस्ताय नमो नमः किं स्तुवस्त्वां गणाधीशयोगशान्तिधरं परं यत्र वेदादयशान्तिं प्राप्ता योगपरायणाः मनोवाणीमयो नैव मनोवाणी विवर्जितः नैव दे नमो नाथप्रसन्नो भव सर्वदा यवमुक्त्वा गणाधीशं प्रणे मधुर्मः सुर श्रिओंकारौ तौ गणनायकः जगादगणनायक्री गणेश उवाच महाभागे महामाये महामा हृदीता तपसा तुष्टस्त्रेनाशेषद स्त्रोत्रे वै सर्विधिप्रदाय पठदे शृण्वे नित्यं प्रभवेद्भुक्तिमुक्तिदम् ब्रह्मभूयकरं पूर्णं श्रियोङ्कारयशसान्वितं मम प्रियकरं पूर्णं भक्तिवर्धनकं भवेद गणेशवचनं श्रुत्वो चतुः श्रियोङ्कारकौपरं गणेशभक्तिसंयुक्तो भक्तेशं भक्तवत्सलम् श्री ओंकाराऊचदुक्ति स्थिम देहि योग्रदायिका सकल सिद्धिसा दाँम ते पादप्द य बुद्धिश्चया सभो तथा ते प्रियनाथ कुछनायक अस्मदीय वशे जगद्रह्म कुभो अवाभ्यां मोहिदं सर्वं भवतु भजने त्वदीयभजनेनैव मोहो ह्यस्मत्पृथः परः नाशं यादु सदा देव नान्यथा योगकाजिभिः शिवविष्णुमुखादेव मोहयुक्ता भवन्तु अस्मदर्थं सदा भ्रांदा यत्नयुक्ता भवन्तु श्रीगणेश उवाच भवदीभ्यामृता सर्वे वरा सुदुर्लभाः पराः दत्तामया विशेषेण मोहयेदमिदं जगद मायाभ्यां सिद्धिबुद्धिभ्यां रजितं विविधं जगद ब्रह्मनानाविधं देव्यौ तत्राहं बिम्बितो भवम् बिम्बं मे मोहयुक्तं तन्नानाभावपरायणं मम भक्तिस्वभावेन मोहीनं भवेत् सदा मम बिम्बस्य भार्ये तु संशयो न भविष्यधः तेन युक्ते महामाये बन्धमोक्षौ करिष्यधः सिद्धिबुद्धियुदोऽहं तु ब्रह्मभूतः सनातनः न तत्र योग्यदेव्यौ भवत्योर्मोहनात्मनोः एवमुक्त्वा गणाधीशोऽन्तर्धानं वै चकारः माये तं मनसा ध्यात्वा संस्थिते तत्र दैत्यप ततो गणेशबिम्बं यत्पतितं तत्तयोर्हृदि तेन युक्ते चतुर्भेदं चक्रदुर्भेदनात्मके बाह्यसौख्यकरी माया किल ब्रह्मणां देवरूपा च श्रीः सर्वत्र प्रकीर्तिता चतुर्णां जगदां तद्वद्ब्रह्मणां ज्ञानरूपिणी ओङ्कारात्मकरूपा सा माया सर्वत्र संस्थिता ताभ्यां युक्तो गणेशानक्रीडदे विविधेरथः मोहयुक्तविहीनत्वा नानाभेद परायणः अध सर्वेषु जीवेषु मोहिदेषु महासुर मोहीनात्मभावेषु श्रियोङ्कारौ त्वादिसम्मतौ आदौ पुरुष उच्यदे कृदं प्रकृतिच्चार्य पश्चात्ष उच्यम विघ्नेशन नैत्यनायक्रीशब्दयुक्त गणेश पठ्य दे बुधंकार सामुक्त मयाभ्यां खेलनात् वामाङ्गे श्रीर्धृता तेन दक्षिणाङ्गे महासुर ओङ्कारो गणनाथस्य बिम्बेन ब्रह्मरूपिणा बिम्बं सर्वत्र भावेषु तदाकारं बभूवः अथ शिवादय सर्वे जाता श्रियोङ्कारसंयुताः जीवा श्रियोङ्कारसंयुक्ता पठ्यन्ते वेदवादिभिः आदिमाये समाख्याते बिम्बाद्धारे धारे विचारया श्रि ओङ्कारमोहं त्वं त्यक्त्वा विघ्नेश्वरं भज सिद्धिबुद्धियुधं ताद तेन सौख्यमवाप्स्यसि इति ते कथितं सर्वं धूम्रवर्णस्य चेष्टितं गच्छ तं दैत्यचांदिदं दैत्यशान्दिदं भुक्रिमुक्रिदम् भिन्नभावकरे माये श्री ओङ्कारौ परिकीर्तिदौ ब्रह्मभूयमयी प्रोक्ता सिद्धिर्बुद्धिर्विचक्षणं ये दत्ते सर्वं रहस्यं सर्वसम्मतं वेदगुह्यमहङ्कारगच्छ तं सर्वसिद्धये ॐ तत्सदिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहङ्कारा सुरज्ञानोपदेशो नाम षष्ठोऽध्यायः ओम्